आरुषी तु मनोःकन्या तस्य पत्नीमनीषिणः और्वस्तस्याम् समभवद् ऊरुम् भित्त्वा महायशाः महातेजा महावीर्यो वाल एव गुणैर्युतः ऋचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् जमदग्नेस्तु चत्वार आसन्पुत्रा महात्मनः रामस्तेषाम् जघन्योऽभूदजघन्यैर्गुणैर्युतः सर्वशस्त्रेषु कुशलः क्षत्रियान्तकरो वशी और्वस्यासीत्पुत्रशतम् जमदग्निपुरोगमम् तेषाम् पुत्रसहस्राणि बभूवुर्भुविविस्तरः द्वौ पुत्रौ ब्रह्मणस्त्वन्यौ ययोस्तिष्ठति लक्षणम् लोके धाता विधाता च यौ स्थितौ मु मनुना सह